ईशावास्य उपनिषत् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य ईशावास्यमिदगुं सर्वैयत्किञ्च जगत्या जगत् तेन त्यक्तेन भुञ्जीधा मा गृधः कस्य स्विधनं कुर्वन्ने विहकर्माणि जिजिविषेच्छदगुं समाः वनि न्यधे तो न कर्म लिप्यते नरे असूम ते लोका अंधेन तमस तागस्ते प्रगछति ये के चात्मनो जना अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षद तद्धावदो न्यानत्येदि तिष्ठत्यस्मिन्नभो मादरिष्वा दधाति तदे जधि तन्नेजि ज़ित तद्दूरे सर्वस्य तदु तदंति के तदन तदुसर्व बाह्य भूदान्यात्मनेश्यूतम्त नीजुगुपते यस्मिन् सर्वाणि बहु धान्यात्मैवा भूद्विजानतः तत्र को मोहकशोक एकत्वमनुपश्यतः सपर्यगाच्छुक्रमकायमवूरणमस्ना विरगुं शुद्धमपापविद्धम् कविर्मनीषि परिभूस्वयं भूर्याधादित्यतोर्धान् अन्धन्तमः प्रविशन्ति ये विद्यामुपासते ततो भूय इवदे विद्या याहुं रताः अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया यदि शुश्रुमधीराणाये नस्तद्विचक्षिरे विद्याञ्चाविद्याञ्च यस्तद्वेदो भयघुं सः मृत्युं तीर्त्वा विद्यया मृदमश्नुते अन्धन्तमः प्रविशन्ति ये सम्भूतिमुपासते तदोभूय इव देतमोय अन्य देवाहुसम्भवादन्यदाहुरसंभवाद यदि शुश्रुमधीराणाये नस्तद्विचक्षीरे सम्भूदिञ्च विनाशं च यस्तद्वेदो भयगुं सः विनाशेन मृत्युं तीर्त्वा संभूत्या मृदमश्नुते हिरन्मयेन पात्रेण सत्यस्यापि हितं मुखं तत्त्वं पोषन्नपावृणु सत्यधर्माय दृष्टये पोषन्ने करिषेयमसूर्यप्राजापत्यव्योह रश्मेन् रश्मिन्समूह तेजो यत्ते रूपं तत्ते पश्यामि योऽसा वसौ पुरुषसोऽहमस्मि वायुरनिलमममृदमधेदं भस्मान्दगुं शरीरम् ओ क्रदो स्मर कृदग् स्मर क्रदो स्मर कृदघ् स्मर अग्ने नय सुपधा राये अस्मान्विश्वानि देववयुनानि विद्वान् युयोध्यस्मज्जुहुराण नम उक्रिम् विधेम ॐ पूर्णमधः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिशान्तिश्शान्तिः